अथ द्वात्रिंशः सर्गः ततः शाखान्तरे लीनम् दृष्ट्वा चलितमानसा वेष्टितार्जुन वस्त्रम् तम् विद्युत्सङ्घातपिङ्गलम् तत्र प्रश्रितम् प्रियवादिनम् फुल्लाशोकोत्कराभासम् तप्तचामीकरेक्षणम् साथ दृष्ट्वा हरिः श्रेष्ठम् मैथिली चिन्तयामास विस्मयम् परमंगता अहो भीममिदं सत्वं वानरस्य दुरासदम् दुर्निरीक्ष्यमिदम् मत्वा पुनरेव मुमोहसा विललापभृशम् सीता करुणं भयमोहिता रामरामेत दुखार्ता दुःखार्ता लक्ष्मणेति च भाविनी रुरोदसहसा सीता मन्द साध दृष्ट्वा हरिवरम् विनीतवदुपागतम् मैथिली चिन्तयामास स्वप्नोऽयमिति भाविनी सा वीक्षमाणा पृथुभुग्नवक्त्रम् शाखा मृगेन्द्रस्य यथोक्तकारम् ददर्श पिङ्ग प्रवरम् महार्हम् वातात्मजम् बुद्धिमताम् वरिष्ठम् सा समीक्ष्यैव भृशम् विपन्ना गता चिरेण सञ्ज्ञाम् प्रति लभ्य चैवम् विचिन्तयामास विशालनेत्रा स्वप्नो मयायम् विकृतोऽद्यदृष्टः शाखा मृगः शास्त्रगणैर्निषिद्धः स्वस्त्यस्तु रामाय सलक्ष्मणाय तथापितुर्मे जनकस्य राज्ञः स्वप्नो हि नायम् न हि च पीडितायाः सुखम् हि मेनास्ति यतो विहीना रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवतीतमेव तस्यानुरूपम् च कथाम् तदर्थामेवम् प्रपश्यामि तथा शृणोमि अहम् हि तस्याद्य मनोभवेन सम्पीडिता तद्गत सर्वभावा विचिन्तयन्ती सततम् तमेव तथैव पश्यामि तथा शृणोमि मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्यापि वितर्कयामि किम् कारणम् तस्य हि नास्ति रूपम् सुव्यक्तरूपश्च वदत्ययम् माम् नमोऽस्तु वाचस्पतये स वज्रिणे स्वयम् चैव हुताशनाय अनेन चोक्तम् यदिदम् ममाग्रतो वनौकसा तच्च तथास्तु नान्यथा इत्यार्षे श्रीमद् रामायणे आदिकाव्ये सुन्दरकाण्डे द्वात्रिंशः